धनायुषस्तु पुत्राणाम् चतुर्णाम् प्रवरोऽसुरः विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः द्वितीयो विक्षराद्यस्तु नराधिपमहासुरः पाण्ड्यराष्ट्राधिप इति विख्यातस्सो भवन्नृपः बलीवीर इति ख्यातो यस्त्वासीदसुरोत्तमः पौण्ड्रमात्स्यक इत्येवं बभूवसनराधिपः वृत्र इत्यभिविख्यातो विख्यातो राजन्महासुरः मणिमान्नाम राजर्षिः स बभूवनराधिपः यस्तस्य बभूवावरजोऽसुरः दण्ड इत्यभिविख्यातः स आसीनृपतिः क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः दण्डधार इति भवन्मनुजर्षभः काले यानां तु ये पुत्रास्तेषामष्टौ न जयत्सेनस्तेषामासीत् स पार्थिवः अष्टानां महासुरः द्वितीयस्तु श्रीमान् हरिहयोपमः अपराजित इत्येवं तृतीयस्तु महातेजा महामायो महासुरः निषादाधिपतिर्जज्ञे भुविभिः न्यतमो यस्तु चतुर्थः परिकीर्तितः श्रेणिमानिति विख्यातः राजर्षि सत्तमः पञ्चमस्त्व भवत्तेषाम् प्रवरो यो महासुरः महौजा विख्यातो बभूवेह परन्तपः षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः अभीरुरिति विख्यातः क्षितौ राजर्षि सत्तमः समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात् विश्रुतः सागरान्तायाम् क्षितौ धर्मार्थतत्त्ववित् बृहन्नामाष्टमस्तेषाम् काले नराधिप। न धर्मात्मा सर्वभूतहिते कुक्षिस्तुराजन् विख्यातो दानवानाम् महाबलः पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः प्रथनश्च महावीर्यः श्रीमान् राजा महासुरः सूर्याक्षैति विख्यातः क्षितौ जज्ञे महीपतिः असुराणान्तु यः सूर्यः श्रीमांश्चैव महासुरः दरदो नाम वाल्लीको वरः सर्वमहीक्षितां गणः क्रोधवशो नाम प्रकीर्तितः ततः सञ्जज्ञिरे वीराः क्षिता सिद्धार्थकीटकस्तथा सुवीर सुसबास् महावीरोथ बा्लिक